हरि ओं श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमापुराणे द्वितीयस्कन्धे पञ्चमोऽध्यायः कृषे वोचो वशूनां सम्भव सूत्र कथितशापकारणात् गाङ्गेय्यस्य तथोत्पत्ति कथिता लो महक्षणे माता व्यासस्य धर्मज्ञ नामना सत्यवती सती कथं प्राप्ता भार्या गन्धवती शुभाय तन्ममाचकवितारं दासपुत्री कथम्भूता राजा धर्मवलिष्ठेन संशयं छिन्धितु सुव्रत श्रोत उवाच नाम राजषि मृगया निरतसुर वनं जगामन् निघ्नन् वय चत्वार्येव तु वर्षाणि पुत्रेण स भूपतिः रममाण सुखं प्राप्य कुमारेण यथाहर एकदा दिक्षिपन्वाणान् विनिघ्नन् खड्गसूकरान् स कदाचित् वनं प्राप्य कालिन्दिं सरिताम्बराम् महीपतीयनिर्देशम् अजिघ्रद्गन्धमुत्तमम् तब मंच न मंदार से गंधों मृगनाभिमद चंपक न न माल मनोहर न चाभूत पूर्वय वाती गंधव शुभ कुयु मम घृण विमो इति सञ्चिन्त्य मानोसो बभ्रा भवनमण्डलम् मोहितो गन्धलोभेन शन्तनुपवनानुग्रह स ददर्श नदीतेरे स्वस्थितां चारुदर्शनाम् शृङ्गारयितां कान्ताम् स्वस्थितां मलिनाम्बराम् दृष्ट्वा ताम् असितापाङ्गीम् विस्मितः स मयि इति सञ्जातनिश्चयः तदद्भुतं रूपमतीव सुन्दरम् तथैव गन्धो किल लोकसम्मतः वयश्च तादृवनशुभम् दृष्टैव राजा किल विस्मितो भवेत् केयं कुतो वा समुपागत अधुना देवाङ्गनाव किम मानुषी वा गन्धर्वपुत्री किल नागकन्य जाते कथं गन्धवतीं नौकामिनीम् सञ्चित्य चैवं मनसा नृपोऽ न निश्चयं प्रापयदा तथा स्वयं गङ्गां स्मरन् कामवश्यं गतोथ स्वप्रच्छकान्तं तटसंस्थितां सुतासिकस्मात् इह स्थिता तं विजनेवरोरु एकाकिने किं नेत्रे विवाहिता वा न विवाहितासि सञ्जात कामो मरलनेत्री च मनोरमां च ब्रूहि प्रिये चिकीषि तं किं चेति सर्वं मम मुक्ता इत्येवमुक्ता सुदतीनृपेण प्रोवाच तं तस्मितमम्बुजकेडा दास्य पुत्रीं तमवेही राजन् कन्यापितु चासन संस्थितां च तर्हि मां धर्म निमित्तमेवै संभावयामि यजलेन्द्रेन्द्र पिता गृहे मेदे गतोऽस्ति गामम् सत्यं ब्रवीम्यर्थ पते तवाग्रे इत्येवमुक्त्वा विदराम बाला कामातुरस्तपतिर्बभाचे कुरुप्रवीरं वृथा न गच्छे न मृयौवनं ते न चास्ति पत्नी मम वै द्वितीया त्वं धर्मपत्नी भव मे मृगाक्षी दासोऽस्मि तेऽहम्बषग सदैव स्थापयति प्रिये गता प्रिया मां परिसृत्य कान्ता नान्यवृताहं विधोऽस्मि कान्ते तन् वीक्ष्य सर्ववयवातिरम्यम् मनो हि दातं विवचं मदीयम् मृत्वा मृता स्वादरसं उपात्य वचोति रम्यं खलु दाकन्या उवाच तं सात्तिकभावयुक्ता कृत्वा तीधैर्यं नृपतिं सुगन्धा यदार्थराजं मैतस्तथैव मैतस तथा यथा नास्मि स्वतन्त्रा त्वमवेहि कामम् ताता पिता मेतं तमशु न स्वैरिणीहाय व्यपीद च पुत्री चरामि न चेद् ददाति पतितः पिता मे गृहाणपाणिं वचगास्मि तेऽहम् दुनोति यथा पुनर्मामेव यौवनां च दोनोति तत्रापि रक्षणीया धृतिकुलाचार परम्परासु सू। सूतवाचे, उवाच इत्याकर्णवच तस्या नृपति काममोहितः गतो दाशपदर्गेऽहं तस्या व्याचन् अहे तवे दृष्ट्वा नृपतिमायान्तम् दासोत्तिर्विस्मयम् गतः णामं नृपते कृत्वा कृतञ्जलि अभाषते दासोवाच कतोऽस्मि तव भूपाले कृतार्थोऽहं तवागमे अन्यं देहि महाराज यदर्थं यागमः रजोवाच धर्मपत्नीं करिष्यामि श्रुताम् एतां तवानगे त्वया दीयते मह्यं सत्यं वे तद्रवीमिते कन्या रत्नं मदीयं चेत् यत् तं प्रार्थयते नृप दातव्यं तु उपदास्यामि न देयं गदाचन्द्र तस्याः पुत्र महाराज तदन्ते पृथिवी पतिः सर्वथा चाभिषेक्तव्यो नान्यपुत्रवेति वै श्रुतवाच श्रुत्वाक्यं तु दास्य राजा चिन्तातुरो भवेत् गङ्गेयं मनसा कृत्वा धुवा च सदा का मातु चिन्ता प्राप्त चिन्ताभीष्टो महीपतिः न शास्नो भुविजयनाथ न शुष्पा गृहं गतः चिन्तातुरं तु तं दृष्ट्वा पुत्रो देव पृच्छन् महे पालम् असन्तोषकारणं अस, दुर्जय कोऽसि शत्रुस्ते करोमेव तव का चिन्ता नृपशादुला सत्यं वद नृपोत्तम किं तेन दातेन सुतेन राजन् दुःखं न जानाति नुनाशयेद्य ऋणं ग्रहीतुम् समपागतोसो प्राग्जन्मजन्नात्र विचारणास्ति विमुच्य राज्यं रघुनन्दनोऽपि तातज्ञया दाशरसि वनं गतो लक्ष्मणजानकीभ्याम् सहैव शैलं किल चित्रकूटम् सुतोरी चन्द्र नृपश्च राजम् यो प्रसिद्ध नाम्ना क्रीतोऽथ पित्रा विपुणोद्यतश्च दातार्पितो विप्रगृहे तु नूनम् तथा जिघर्तस्य सुतो वरिष्ठ नाम्ना शुनश्चेप प्रसिद्ध क्रीतस्तु सम्मोचितो गाधिसुतेन पश्चात् पित्राद्या जामदग्नेन पूर्वम् छिन्नं चिरो मातुरिति प्रसिद्धम् अकार्यमप्याचरितं च तेन गुरोरनुज्ञा च गरीयशीकुरुगरीयशीकृता इदं चैर्यं तव भूपतेन क्षमोऽस्मि नूनं बदकिं करोम्यहम् न योचनीयमेव स्तमारे अप्यसाध्यमर्थं प्रतिपादया प्रब्रूहि राजन्तव कातिचिन्ता निवारयाम्यद्य धनुर्गृहीत्वा देहेन मे चरितार्थता वा भवामोघा भवतश्चिकेशाक्तं श्रुतं ये पितृरीप्सितार्थम् शमोऽपि सन्न प्रतिपादयेद्य दातेन किं तेन सुतेन कामम् पितुर्न चिन्तां हि समुद्धरेद्य सुवाच वचस्तस्य पुत्रस्य शन्तनो नृप लज्जमानस्तु मनसा तरितं सुतं राजोवाच चिंता मे महते पुत्र यस्वे के सुत शुनौती बलवान मे संग्रमे परापत्य मेता दम जीवित किल मृते स्वी मृदे क्वापी किम कौमे निराश्रय महती चिंता तेना दुखीस्म्य हम नान्या चिंता कि मे पुत्र यांस वादम्यहम सूतवाच तदाकर्ण्यात् गाङ्गेयो मन्त्रिविरुद्धा न पृच्छत न माम् वदति भूपालो लज्जयाद्य परिप्लत वित्तवार्ताम् नृपस्याद्य पृष्ट्वा यूयम् विनिश्चयात् सत्यम् ब्रुवन्तु माम् सर्वम् तत् करोमि निराकुरः तच्छ्रुत्वा ते नृपम् गत्वा संविध्याय च कारणम् शशंसो विद्यताथर्तु गाङ्गेयः स चिन्तयत् सहित ते जगामाशु दाशस्य सदनं तदा प्रेम पूर्वम् उवाच इदम् विनम् रोजानवि सुतः गाङ्गेये उवाच सुधातेद्य प्रार्थयामि सुमध्यमाम् मातामी तु सुखेयं ते दासस्मस्यापरन्दश उवाच तं गृहेण महाभाग्य पत्नीं गुरुन् पुत्रस्या न भवेद् राजा वर्तमाने त्वयीति वै गङ्गे उवाच मातै मम दासै राज्यं नैव करोम्यहम् पुत्रोऽ सर्वथा राज्यं करिष्यति न शोचय दासोवाच सत्यं वाक्यं मया ज्ञातं पुत्रस्यै बलवान् भवेत् स्वपि राज्यम् बलात् नूनं गृह्णीयादिति निश्चय गङ्गे उवाच न दार संग्रहं नूनं करिष्यामि हि सर्वथा सत्यमेव वचनं तात मया भीष्मं व्रतं कृतं कृतवाच एवं कृतं पदे ददो निशम्य झष जीवकः सत्यवतीं तस्मै राज्ञे सर्वाङ्गशोभनाम् अनेन विधिना तेन कृता सत्यवती प्रिया न जानाति परं जन्म व्यासस्य नृपसत्तम इति श्रीमद्देवी भागवते महापुराणे चादृशशासरे संहितायाम् द्वितीयस्कन्धे देवव्रतः प्रतिज्ञा वर्णनम् नाम पञ्चमोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु